श्रीहरये नमः अथ षट्चत्वारिंशोऽध्यायः श्रीसुख उवाच वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा शिक्षो बृहस्पते साक्षात् उद्धवो बुद्धिसत्तमः तमाखभगवान् प्रेष्टं भक्तमेकान्ति क्वचेत् गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो गच्छ बुद्धव्रजं सौम्य पित्रोर्नौ प्रीतिमावहा गोपीना मद्वियोगातिं मत्सन्देशैर्विमोचय तामन्मनस्कामत्प्राणामधर्ते त्यक्तदैहिकाः मामेव दयितं प्रेष्ठमात्मानं मनसागताः ये त्यक्तलोकधर्माश्च मधर्ते तान् बिभर्म्यहं मयि दूरस्ते गोकुलस्त्रियः स्मरन्त्योऽङ्घविमुह्यन्ति विरह औत्कण्ठ्य विक्वलाः तारयन्त्य त्रिकृश्रेण प्रायः प्राणान् कथञ्चन प्रत्यागमनसन्देशैर्वल्लभ्यो मे मधात्मिकाः इत्युक्त उद्धवो राजन् सन्ते आधाय रतमारुह्य प्रययौ नन्दगोकुलं प्राप्तो नन्दव्रजं श्रीमान् निम्लोचति विभावसौ सन्नायनः पशुनां पशूनां कुररेणुभिः वासितार्तेऽभियुद्यद्भिर्नादितं सूक्ष्मभिर्वृषैः धावन्तीभिच्छवाश्राभिरुधो बारैः स्ववत्सकान् इतस्ततो विलङ्घभिर्गोवत्सैर्मण्टितं स्थितैः गोतोखसप्धाभिरवं वेणूनां निःस्वनेन च गायन्ति बिच्चकर्माणि शुभानि बलकृष्णयोः स्वलङ्कृताभिर्गोपिभिर्गोभैश्च सुविराजितम् अग्नि अर्क अतिथिगो विप्रपितृदेव अर्चनान्वितैः धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमं सर्वतः पुष्पितवनं द्विचालिकुलनादितम् पद्मक्षण्डैश्च मण्डितम् तमागतं समागम्य कृष्णस्यानुचरं प्रियं नन्दप्रीतः परिष्वज्य वासुदेवधियाश्चयद् भोचितं परमान्येन संविष्टं कसिपौसुकं गतश्रमं पर्यभ्रच्छत्पातसंवाहनादिभिः कच्चिदङ्कमहाभाकसखानसुरनन्दनः आस्ति कुशल्यपत्याध्यैर्युक्तो मुक्तः सुहृद्वृतः दिष्ट्या कंसोखतः पापसानुगस्वेन पाप्मना साधूनां धर्मशीलानां यधूनां द्वेष्टि यः स धाम् अपि स्मरति न कृष्णो मातरम् सुहृदः सेन् गोपान् व्रजं चात्मनाथं गावो बृन्दावनं गिरिम् अप्यायास्यति गोविन्दस्व जनान् तर्हि द्रक्ष्याम तद्वत्रम् सुनसं सूक्ष्मिते च रक्षिताः दुरत्ययेभ्यो मृत्युभ्य कृष्णेन सुमहात्मना मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितं हसितं भाषितं साङ्गसर्वानस्सितिलाक्रियाः सरिश्चलैवनोद्देशान् मुकुन्तपदभूषितान् आगृढानि क्षमाणानां मनो तदात्मता मन्ये कृष्णं च रामं च प्राप्ताभिकशुरोत्तमो सुराणामकदर्ताय गर्गस्य वचनं यथा कंसं नागायुत मल्लौ गजपतिं तथा अवधिष्ठां लीलयैव पशूनिव मृगाधिपः तालत्रयं महासारं धनुर्यि ैकेन हस्तेन सप्ताहम् अददात् गिरिं प्रलम्बो धेनुकोरिष्टृणावर्तो भगादयः दैत्यासुरासुरजितो हतायनेखलीलय श्रीशुक उवाच इति संस्मृत्य नन्द कृष्णानुर् प्रेमप्रसरविक्वलः यशोदावर्णयमानानि पुत्रस्य चरितानि च शृण्वन्त्यशृण्य वा साक्षीद स्नेहस्नुतपयोधरां तयोरित्तं भगवति कृष्णे वीक्षानुरागं परमं नन्दम् आहबुद्धवो उद्धव उवाच युभां श्लाघ्यतमौ नूनं देहिनामिह मानधा येतो हि विश्वस्य च बीजयो निरामो मुकुन्तपुरुषः प्रधानम् अन्वीयभूतेषु विलक्षणस्य ज्ञानस्य सेचात इमौ पुराणौ यस्मिञ्जनप्राणवियोगकाले क्षणं समावेश्य मनो विशुद्धं निर्हृत्य कर्मा परां गतिं ब्रह्ममयोर्कवर्णः तस्मिन् भवन् तौ अखिलात्महेतौ नारायणे भावं विधत्तां नितरां महात्मन् किं वावसिष्ठं युवयो सुकृत्यम् आगमिष्यत्यग् दीर्घेण कालेन व्रजमच्युतः प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पतिः हत्वा कं संरङ्गमध्ये प्रतीपं सर्वसात्वतां यदा समागत्य कृष्णः सत्यं करोति मा गित्यतं महाभागौ द्रक्षथ कृष्णमन्तिके अन्तर्हृतिसभूतानामास्ते ज्योतिरीवैदसे न ह्यस्यास्ति नादमो नापि न माता न पिता तस्य न भार्या न ना सुधाधयः नात्मीयो न ना परश्चापे न देहो जन्म एव च न चास्य कर्म वा लोके सदसन्मिश्रयोनिशो क्रीडाशोभि साधुना परिराय कलते सजस्तमित भजते निर्गुणो निर्गुणों गुणा क्रीटन्नतीदु सृजते वह त्यजहा यता यथा प्रमरिगादृष्ट्या भ्राम्यतीव महीयते चित्ते कर्तरि तत्रात्मा कर्तेवाहं धिया स्मृतः युवयोरेव नैवायम् आत्मजो भगवान् हरिः सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः दृष्टं श्रुतं भूतभवत् भविष्यत्तास्नुसरिष्णुर्मखदल्पकं च विनाश्चुतात्मस्तुतरां न वाच्यम् स एव सर्वम् नन्दस्य कृष्णानुचरस्य राजन् गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् दीपदीप्तैर्मणिभिर्भिरेजो रज्जुविकर्षद्भुजकङ्कणस्रजः चलन्नितम्बस्तनघारकुण्डलद्विषत्कपोलार् ऋणकुङ्कुमाननाः उद्घायती नमरविन्दलोचनं रजाङ्गनानां दिवमस्पृशध्वनिः दत्नश्च निर्मनन्दसप्तमिश्रितो निरस्यते ये दिशामङ्गलम् भगवत्युधे सूर्ये नन्दत्वारिव्रजौघ सः दृष्ट्वा रतं सातकौम्भं कश्यायामिति चाब्रुवन् अक्रूर आगतः किं वा यः कंस्यार्थसाधकः येन नीतो मधुपुरीं कृष्णः कमललोचनः किं साधयिष्यति अस्माभिर्भर्तुप्रेतस्य निष्कृतिम् इति स्त्रीणा वदन्तीनाम् उद्धवो गात्कृतान् हि इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्धे नन्तशोकापनयनं नाम षट्चत्वारिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहाराज कि जय